श्रीमद्भागवत् महापुराणम् एकादशि स्कन्धस्तृतीयोऽध्यायः क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद्धसन्ति नन्दन्ते वदन्त्य लौकिकाः नित्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तृष्णिं परमेत्य निवृताः इति श्रीभागवतान् धर्वान् शिक्षन् भक्त्या तदुद्धयाम् नारायणपरो मायामञ्जस्तरति दुस्तराम् राजुवाच नारायणाभिधानस्य ब्रह्मण परमात्मनः निष्ठामर्हत नो वक्तुं यूयं हि ब्रह्मवित्तमाः पिप्पलायन उवाच चित्वन्भवप्रलयहेतुरहेतुरश्च यस्वप्नजागरसु सोप्तेषु सद्बहिश्च देहेन्द्रिया श्र हृदयानि चरन्ति येन सञ्जीवितानि तद्वेहि परं नरेन्द्र तन्तैतन्मनो विशति वा गुरुचक्षुरात्मा प्राणेन्द्रियाणि च यथा नदमर्चिष स्वाः शब्दोऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तमाह यदृतेन निषेधसिद्धे सत्त्वं रजस्तम् इति त्रिविदेकमादौ सूत्रं महानहमिते प्रवदन्ति जीवं ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्यतयोपरं यत् नात्मा जजान्न मरस्यति नेधति सौ सर्वत्र सस्वन्नपयुपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं शतम् अण्डेषु पेषुषु तरुष्वामिनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आसे मृते तननुस्मृतिर्नः जनाभ यर्हब् जनाभचरणौ शणयोभक्त्या चेतोमलानि विधमेतगुणकर्मजानि तस्मिन् विशुद्ध उपलभ्यते आत्मतत्त्वं साक्षात् यथा मलदिशो सवित्रिप्रकाशः राजुवाच कर्मयोगं वदतनः पुरुषो येन संस्कृतः विधूयेहासु कर्मालीनैस्करिणं विन्दते परम् एवं प्रश्नमृषिन्पूर्वम् अपृच्छं पितुरन्ति के नाब्रुवन् पुत्रा तत्र कारणमुच्यताम् आविर्होतृवात् कर्मा कर्मविकर्मेति वेदवादो न लौकिकः वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः परोक्षवादो वेदोऽयं बालानामनुशासनं कर्म मोक्षाय कर्माणि विधत्ते जगदं यथा नाचरे यस्तु वेदोक्तम् स्वमयज्ञोजितेन्द्रियः विकर्मणाश धर्मेण मृत्योर्मृत्युमुपैति वेदोक्तमेव कुर्माणो निषङ्गोऽर्पितमीश्वरे नैस्कर्म्यां लभते सिद्धिं रोचनार्थां फलश्रुतिः य आशो हृदयग्रन्थिं निर्जिहर्षुं परात्मनः विधिनोपचरे देवं तन्त्रोक्तेन च केशवं लब्धानुग्रह आचार्या सन्दर्शितागमः महापुरुषमभ्यर्चेन्मृत्याभिमति आत्मनः शुचिसम्मुखमासीनप्राणसंयमनादिभिः पिण्डं विशोध्यसंन्यासकृतरक्षोर्चयेद्धरिम् अर्चादौषये चापि यथा लब्धोपचारकैर्लभ्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्षचासनम् पाद्यादीनोपकल्प्याथ सन्निधाप्य समाहितः हितादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् साङ्गोपाङ्गां सपार्षदां तां तां, तां मृत्तिं समन्त्रतः पाद्यार्घ्याचमनीयाद्यै स्नानवासो विभूषणै गन्धमाल्याक्षतश्चघे धूपदीपोपहारकै गाङ्गम् सम्पूज्य विधिवत् स्तवैस्तुत्वा न मेद्धरिम् आत्मानं तन्मयम् ध्यायन्मर्तिम् धरेह तेषामाधाय शिरसि स्वधाम्निरुद्धारस्य शक्ति तम् एवमज्ञर्कतो यादाम् वतितं यादौ अवतीर्थौ हृदये यदि ते स्वरमात्मानम् अचिरान्मुच्यते शिश ते श्रीमद्भागुते महापुराणे पारहंसां चयितायाम् एकादश तृतीयोऽध्यायः